हरि ओम् नम श्रीसीतारामचन्द्राभ्याम् नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे द्वाविंशत्यधिकशततमसर्गः श्रीरामस्य आज्ञया विभीषणेन वानराणाम् भुजम् सत्कारो विभीषणम् वानरा च सह एवादाय श्रीरामस्य पुष्पकेणायोध्याम् प्रति प्रस्थानञ्च उपस्थितम् तु कृत्वा पुष्पकं पुष्पभूषितम् अविदूरे स्थितो रामम् इत्युवाच विभीषणः स तु बद्धाञ्जलिपुटो विनीतो राक्षसेश्वरः अब्रवीत्तरयोपेत किं करोमीति राघवम् तमब्रवीन् महातेजा लक्ष्मणस्य उपशृण्वतः विमृश्य राघवो वाक्यम् इदम् स्नेह पुरस्कृतम् कुट प्रयत्न कर्माण सर्वैवनोकस रत्नै अर्थै च विविधैः सम्पूज्यन्ताम् विभीचण सा मेभिः सया लङ्का निर्जिता राक्षसेश्वर दृष्टे प्राणभयं त्यक्त्वा संग्रामेश्वर निवर्तिभिः ते वे कृतकर्माण सर्वनोकसह धनरत्नफदाने च कर्मेषां सफलम कुरु एवं सम्मानिता चैते नन्द्यमाना यथा त्वया भविष्यन्ति कृतन्येन निर्वृत्ता हरियूथपः त्याघिनं सङ्गृहीतारम् सानुक्रोशम् जितेन्द्रियम् सर्वे तामभिगच्छन्ति ततः सम्बोधयामि ते तीनं रतिगुणैः सर्वैः अभियन्तारमहवे तेना त्यजति संविघ्ना नृपतिं तं नरेश्वर एवम् उक्तः सु रामेण वानरान्तान् विभीषण रत्नाससं विभागेन सर्वान्नैवाभ्यपूजयत् ततस्तान् पूजितान् दृष्ट्वा रत्नाथि हरियुष्ठपान् अरुरोहे तदाराम तद्विमानम् अनुत्तमम् अङ्केनादय वै देहीम् लज्जमानाम् मनस्विनीम् लक्ष्मणेन स भ्रात्रा विक्रान्तेन धनुष्मद अब्रवीस विमानस्थ पूजयन् सर्ववानरम् सुग्रीवं च महावीर्यम् काकुत्स्थ विभीषणम् मित्रकार्यं कृतमिदम् भवद्भी वा न दर्शभ अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत् यत्तु कार्यं वयस्येन स्निग्धेन च हितेन च चाह। कृतं सुग्रीव तत्सर्वम् भवता धर्मभीरुणा किष्किन्धां प्रति आह्यासु स्वसैन्येनापि संवृतः स्वराज्ये एव तरङ्गायां मया दत्ते विभीषणः तन् त्वां न त्वां धारयितुं शक्ता चेन्द्रः अपि दिवोकसः अयोध्यां प्रति यास्यामि राजधानीं पितम् अभ्यनुज्ञातुमिच्छामि सर्वानामन्त्रयामि वः एवम् उक्तासु रामेण हरिन्द्राहरयस् तथा ऊचु प्राञ्जलयः सर्वे राक्षसश्च विभीषणः अयोध्याम् गन्तुमिच्छामः सर्वान्नयतु नो भवान् मुद्युक्ता विचरिष्याम वनानि उपवनानि च दृष्ट्वा त्वम् अभिषेकार्धम् कौसल्याम् अभिवर्ध्य च स गुरुपसत्तमः एवम् उक्तस्तु धर्मात्मा वानरैः स विभीषणैः अब्रवीद्वानरान् राम स सुग्रीव विभीषणं यदहं स सुै भवद्भिषितः प्रीतिं लप्स्ये पुरीं गतः क्षिप्रम् आरोह वानरे कमप्यारोह स्वात्यो राक्षसेन्द्रः विभीषणः ततस्त पुष्पकम् दिव्यं सुग्रीवस्थः वानरे अरुरोह मुदायुक्तः सामात्यश्च विभीषणः तैष्वारूढेषु सर्वेषु कौबेरम् परमासनं राघवेणाभिनुज्ञातम् उत्पपात विहायसम् खगतेन विमानेन हंसयुक्ते न भास्वतः प्रवृष्टश्च प्रतीतश्च भव रामः कुबेरवत् ते सर्वे वानराक्षाश्च राक्षसाश्च महाबलः यथा सुखम् वसंवादम् दिव्ये तस्मिन् उपाविशन् वित्यार्थे श्रीमद् रामायणे वाल्मीकि अधिकारे युद्धकाण्डे द्वायत्रिंशति अधिकशतमः सर्गः श्रीसीतारामचन्द्राणमस्तु